ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे चतुस्त्रिंशोऽध्यायः देवी उवाच वायो मन्दभाग्या वै वे। वेदं रूपं अहद्भुतम् तथापि भक्त वासल्यात् दर्शितम् मया न वेदाध्ययनैर्योगैः न दानैस्तपसियाय रूपम् द्रष्टुमिदम् शक्यम् केवलं मत्कृपां विना क्रोतम् शृणु राजेन्द्र परमात्मातृजीवताम् उपाधियोगात् सम्प्राप्तः कष्टुत्वादिकमप्युत यः करोति विविधा धर्माधर्मैकहेतवः नानायोनिस्ततः प्राप्य सुखदुःखै च युज्यते पुनस्तत् संस्कृतिवशान् नानाकर्मरसर नानादेहान् समाप्नोति सुखदुःखै च युज्यते धृष्टियन्त्र वदे तस्य न विरामय कदापि अज्ञानमेवम् मूलम् स्यात् ततः कामः क्रियास्ततः मातज्ञाननाशाय यते नियतम् नरः एतद्धि जन्म साफल्यम् यदज्ञानस्य नाशनम् पुरुषार्थे सु नास्ति च जीवन्मुक्तदशापि च अज्ञाननाशने शक्ता विद्यैव पठीयसि न कर्मसज्जं विरोधा भावतो गिरे प्रत्युताशा ज्ञाननाशे कर्मण नैव भाव्यताम् अनर्थदाने कर्माणि पुनपुन पुनरुशन्तिः ततो रागस्ततो द्वेषः ततो नर्थो महान् भवेत् तस्मात् सर्वप्रयत्नेन ज्ञानम् सम्पादये नरः कुर्वन्नेवेः कर्माणि इत्यतः कर्माप्यवश्यकम् ज्ञानादेवै कैवल्यम् अपश्चात् तत्समुच्चयः सहायताम् दृग् कर्म ज्ञानस्य हितकारिते इति केचिद्वदन्त्यत्रे तद्विरोध न सम्भवेत् ज्ञानात् ग्रन्थिभेदस्यात् धृजन्तु कर्म सम्भवत् योगपद्मं सम्भाव्यं विरोधातु ततस्तयो समप्रकाशयोर्यद्वत् यौगपद्यं न सम्भवेत् तस्मात् सर्वाणि कर्माणि वैदिकानि महामते चित्तशुध्यन्तमेव स्युः तानि कुर्यात् प्रेत्मतः शमोदमात् चेक्षा च चे, वैराग्यम् सत्त्वसम्भवहे तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम् तदन्ते चैव सन्न्यस्य संश्रयेद्गुरुमात्मवान् श्रोत्रियम् ब्रह्मनिष्ठम् च भक्त्या निर्व्याजय पुनः वेदान्तश्रवणं कुर्यान् नित्यमेवम् अतन्द्रितः तत्तमस्यादिवाक्यस्य नित्यम् अर्थं विचारयेत् तत्तमस्यादिवाक्यं तु जीवब्रह्मैक्यबोधकम् ऐक्ये निर्भयस्तु मद्रुपो हि प्रजायते पदार्थो गति पूर्वं वाक्यार्थ गतिस्ततः तत्पदस्य च वाक्यार्थो गिरेऽहं परिकीर्तितः सम्पदस्य च वाक्यार्थो जीव एव न संशयः पदे न प्रोच्यते बुधै वाक्यार्थयोर्विरुद्धत्वात् ऐक्यम् नैव घटेतः लक्षणातः प्रकर्तव्या तत्त्वम्भो श्रुतिसंस्थयोः चन्मात्रम् तु तयो लक्षम् तयोरैक्यस्य सम्भवः तयोरैक्यम् तथा ज्ञात्वा स्वाभेदेन द्वयो भवेत् देवदत्तस्य वायम् इति लक्षणस्मृतः स्थूलादिदेहरतो ब्रह्म सम्पद्यते नरः पञ्चीकृतमः भूतः सम्भूतः स्थूलदेहकः भोगालयो जरा व्याधि संयुतः सर्वकर्मणाम् मिथ्याभूतोय मा भाति स्फुटम् भायाम यतः सोऽयं स्थूल उपाधि आत्मनो नगेश्वरे ज्ञानकर्मेन्द्रियुतं प्राणः पञ्चकसंयुतम् मनोबुद्धियुतं चैतत् सूक्ष्मम् तत्कवयो विदुः अपञ्चीकृतभूतो सूक्ष्मदेहोऽयमात्मरः द्वितीयोऽयम् उपाधि स्यात् सुखाधैरवबोधकः अनाद्य निर्व अनाद्य निर्वाच्यमिदम् अज्ञानम् तु देहो देहोऽयम् भाति कारणात्मा नगेश्वरे उपाधि विलये दाते केवलात्मावशिष्यते देहत्रये पञ्चकोशा अन्तस्था सन्ति सर्वदा पञ्चकोषे परित्यागे ्रह्म पुक्षम् हि लभ्यते नेति नेति चादिवाक्यै मम रूपम् यदुच्यते न गायते म्रियते वा तत्कदाचिन् नायम्भूत्वा न बभूव अजो नित्ये शाश्वतोऽयम्बुराणो न हन्यते हन्यमाने शरीरे चेन चेन हतं चेन्मन्यते हन्तुम् ततश्चेन्मन्यते हतम् सुभतो न विजानीतो नयं हन्ति न हन्यते अणोरणीयान्मतो मयीयाम् आत्मा स जन्तो नेतो गुहायाम् तमक्रतोपश्यति वीतशोको दातु प्रसादन् महिमानमस्य आत्मानं रचिरं शरीरं शरीरम् रसमेव तु बुद्धिं तु सारथिं मनः प्रग्रहमेव इन्द्रियाणि हयानाहु विषयान्तेषु गोचरान् आत्मेन्द्रियमनो युक्तम् भोक्तेत्याहुर्मनीषणीक्षिणः यस्तु अविद्वान् भवति च सदा शुचिः न तत्पदं वाप्नोति संसारं चाधिगच्छति यस्तु विज्ञानवान् भवति स मनस्क सदा शुचिः स तु तत्पदमाप्नोति यस्माद्धूयो न जायते विज्ञानसारथिर्यप्रज्ञवान्नरः स्वध्वन पारमाप्नोति यत्परं बलम् इत्थं श्रुत्वा च मत्या च निश्चित्यात्मानमात्मना भावयेन्मात्मरूपां निजिध्यास नतोऽपि च योगवृत्ते पुरा तस्मिन् भावये दक्षरत्रयं देवी प्रणवसन्न्यस्य मन्त्रवाच्ययोः सकार स्थूलदेह स्यात् सकारः सूक्ष्मदेहकः इकारकारणात्मासु हृङ्कारोऽहं तुं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं ग्रमय समष्टिवत्योरेकं समष्टिवत्योरेकथम् भावयेमतिमानरः समाधिकालात् तु भावी भावयेत्यैव मादृतः ततोऽध्यायेन निलीनाक्षौ देवीं मां जगदीश्वरम् प्राणापानौ समो कृत्वा नासाभ्यन्तरचारिणौ निवृत्तविषयाकाङ्क्षौ वितदोषो विमत्तरह। स्वात्या निर्वाचयुक्तो गुहायां निस्वने स्थले हकारं विश्वमाहात्मानं प्रकारे प्रविलापयेत् रकारं तैजसं देवम् ईकारे प्रविलापरेत् ईकारं प्राज्ञमाहात्मानम् अहङ्कारे प्रविलापयेत् वा द्वैतभावविवर्जितम् अखण्डम् तच्चिदानन्दम् भावये तच्चिखान्तरे इति ध्यानयेन भाम राजम् साक्षात्कृत्य नरोत्तमः मद्रूप एव भवति द्वयोरोक्तेः कथायतः योगयुक्त्या न या दृष्ट्वा मामात्मानम् परासरम् अज्ञानस्य च तत्क्षिणे नाशको भवेत् इति श्रीमद्देवी भागवते महापुराणेष्टादशताब्द्यां सहितायां सप्तमस्कन्धे देवी गीतायां ज्ञानस्य मोक्ष हेतु वर्णनं नाम चतुस्त्रिंशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु